ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं ट्वेण्टि फैव् नीलकण्ठनामोत्पत्तिकथनं सुत उवाच एतदुक्त्वा महाबुद्धिर्वायुर्लोकहिते रतः जापजप्यं भगवान्मध्यं प्राप्ते दिवाकरे ऋषयश्चापि ते सर्वे ये तत्र सन्गतास्तु प्राजलस्ता यो नियमसि जीवन प्रभु नीलकंठ नमस्ते सदा ग्रुवा दो काविदात्मानो मुनयशंसितव्रताः वा ल किल्यदिविख्याताः पदङ्गसहचारिणः अष्टाशीतिसहस्रामि ऋषीणामूर्ध्वरे दशां ते स्म पृच्छन्ति वायु च वायुपर्णाम्बुशोभनाः नीलकण्ठेऽधि यत् प्रोक्तं त्वया पवनसत्तम एतद्गुह्यं पवित्राणां पुष्णं पुण्यविदां वरः तद्वयं श्रोतुमिच्छामस्तन्नो निगदसत्तम तत्सर्वश्रोतुमिच्छामस्त्वत्प्रसादात् प्रभञ्चन नीलदायेन कण्ठस्य कारणेनाविपतेः श्रोतुमिच्छामहे देव तव वक्त्राद्विशेषतः या वद्वाजप्रवर्तन्ते सर्वास्ता प्रेरितस्त्वया वर्णस्थानगदेवायो वाग्विधिस्सम्प्रवर्तते ज्ञानपूर्व ज्ञानपूर्वमथोत्साखस्त्वत्तो वायो प्रवर्तते त्वयि निष्पूयमानेतु शेषा वर्णप्रवृत्तयः यत्र वाचो निवर्तन्ते दे। देहवर्णाश्च दुर्लभाः त्वत्तो हि वर्णसद्भावः सर्वगस्त्वं सदा नान्यः सर्वगतो देवस्त्वदृदेस्ति समीरणेष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल वेत्थवाचस्पतिं देवं मनो नायकमीश्वरं ब्रूहि तत्कण्ठदेशे कृत्वा रूपविक्रिया वच श्रुत्वा ततस्तेषां मुनीनां भावितात्मनां प्रत्युवाचमहातेजा वायुर्लोकनमस्कृतः पुराकृतयुगे विप्रो वेदनिर्णयतत्परः वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतिः पप्रकार्तिकेयं वैमयूरवरवाहनं महिषासुरनारीणां नयनां जनतस्करम् महासेनं महात्मानं मेघस्तनिधनिस्वनम् उमा मनःप्रहर्षाणां वारखच्चत्मरूपिणम् क्रौञ्चजीवितहर्तारं गौरीहृदयन्नन्दनं यदे ददृश्यदेवर्यशुभ्रं शुभ्रां जनोपमं तत् किमर्थं समुत्पन्नं कंठे कण्ठे कुन्देन्दुसप्रभे एतद् दीप्तां भक्ताय ब्रूहि पृच्छते कथां मङ्गलसंयुक्तां पवित्रां पापनाशिनीं मत्प्रियार्थं महाभागवमर्हस्य शेषतः श्रुत्वा वाक्यं तदस्तस्य वसिष्ठस्य महात्मनः प्रत्युवाच महातेजा देवारिबलसूदनः शृणुष्व वदतां श्रेष्ठकथ्यमानं वचो मम उमोत्सङ्गोपविष्टेन यथा पूर्वं मया श्रुतं पार्वत्या सह संवाद महात्म तमह संप्रव्यामी त्वत्प्रियार्थं महामुने कैलासशिखरे रम्ये नाना धादु विचि तरुणाद्यसाशे तप्तचा करप्रभे। वज्रस्फिक सोपानने चिंत्रशातले नदमये दिव्ये नाधा नाना विचि नानाद्रुमलताकीर्णे नापुष्पलोपगे नाना हंसकारंडवाकर्णे चक्रवाकोपशो षट्पदोद्गीतबहुले धारासम्पादनादिदे मत्तक्रौञ्चमयूराणां नादैर्विकृष्टकन्दरे अप्सरोगणसङ्कीर्णे किन्नरैरुपशोभिते जीवं जीवकजातीनां विराहैरूपकूजिदे कोकिलारवबहुले सिद्धचारणसेविते सौरभेयनिनादार्ढ्यं मे कस्तनितनिस्वने विनायकभयोद्विघ्नकुञ्चरैर्मुक्तकन्दरैः वीणावादित्रनिर्घोषयः श्रोत्रेन्द्रियमनोरमैः दोलालम्बितसङ्घादे वनितासङ्घसेविदे ध्वजालम्बितदोलानां खण्डानां निनदाकुले वल्लकीवेणुबहुले त्रिंशद्बर्हिणसङ्कुले मुखं मर्दलवादित्रैर्वलितास्फोटितैस्तथा क्रीडावेगविवादानां निर्घोषैः पूर्णकन्धरे हंसैः परावतैश्चैव सुखस्तिदे भगराजैः सुखस्थिते देहबन्धैर्विचित्रैश्च प्रक्रीडितगणेश्वरे गजवाजी मृगमषमुखैश्चान्यैर्गजवाजिमुखैस्तथा बिडालवदनैश्चोघ्रैः क्रोष्टुकाकारसूर्तिभिः ह्रस्वैर्दीर्घैश्च सुकृशैर्लम्बोदरमहीधरैः ह्रस्वजङ्घैः प्रलेभोष्ठैस्तालजङ्घैस्तथापरैः गोकर्णैरेकर्णैश्च महाकर्णैरकर्णकैः बहुपादैर्महापादैरेगपादैरपादकैः बहुनेत्रैर्महानेत्रैरेगनेत्रैरनेत्रकैः एकदंष्टैर्महाधंष्टैर्बहुधंष्ट्रैरधंष्ट्रकैः ीर्षैर्महाशीर्षबहुशीर्षैरशीर्षकैः एक एकजिह्वैर्महाजिह्वैर्बहुजिह्वैरजिह्कैः एवं रूपैर्महायोगैर्भूतर्भूतपदिर्वृतः शिलातले स्वर्णमये सुरम्यगे सुखोपविष्टं मदनागनाशनं प्रोवाचवाक्यं गिरिराजपुत्री भगवन्भूतभव्ये च गोवृशाङ्कितशासन तव कण्ठे महादेवभ्राजदेऽम्बुदसन्निभम् नात्युल्बणं शुभं शुभ्रे नीलाम्बुजचयोपमं किमिदं दीप्यदेदेव कंठे कण्ठे कोहे को किम्वा कंठे वा येदत्सर्वं नीलस्त्वमीश्वर ये ब्रूहि कौदूहलं हि मे श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पार्वतीप्रियः कथां मङ्गलसंयुक्तां कथयामास शङ्करः महेश्वर उवाच मध्यमाने मृदे पूर्वं क्षीरोदे सुरदानवैः अग्रे समुद्धितं घोरं विश्वं कालानलप्रभं तं दृष्ट्वा सुरसङ्गश्च दैत्याश्चैव वरानने विषण्णवदनास्सर्वे गदास्ते ब्रह्मणोऽन्तकम् दृष्ट्वा सुरगणान् भेदान् वाच महाद्युतिः किमर्थं वै महाभागा भेदा उद्विग्नचेतनाः मया त्रिगुणमैश्वर्यं भवतां सम्प्रकल्पितं तेन व्यावर्तितैश्वर्या यूयं भो सुरसतमाः त्रिलोक्यस्यैश्वरा यूयं सर्वे वैविगतज्वराः प्रजा सर्गे न सोऽस्तीह चाज्ञां मेधि वर्तयेत् विमानचारिण सर्वे सर्वे स्वच्छन्दगामिनः आध्यात्मिके चाधिभूते अधिदैवे चा नित्यशः प्रजाकर्मविपाकेन शक्ता यूयं प्रवर्तितुम् तत् किमर्थं भयोद्विघ्ना मृगासिंहार्दिदा इव किं दुशं को नु सन्तापकुदो वा भयमागतं ये तत्सर्वं यथा श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणः परमात्मनः ऊचुस्ते ऋषिभि सार्धं सुरदैत्येन्द्र दानवाः सुरासुरैर्मध्यमाने भजो राशौ पिधामः प्रादुर्भूदं विषंखोरं संवर्ताग्निसमप्रभम् कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चस्सम् त्रैलोक्यात्सादसूर्याभं विस्फुरत्तत्समन्ततः विषेणोत्तिष्ठमानेन कालानलसमत्विषा निर्दग्धो रक्तगौराङ्गो कृधकृष्णो जनार्दनः तं दृष्ट्वा रक्तगौराङ्गं कृदं कृष्णं जनार्दनं ततः सर्वे वयं भीतास्त्वामेव शरणं गताः सुराणामसुराणाञ्च श्रुत्वा वाक्यं भयावहम् प्रत्युवाचमहातेजा ब्रह्मा लोकपितामहः शृण्वन्तु देवदाः सर्वे ऋषयश्च तपोधनाः यत्तग्रे समुत्पन्नं मध्यमाने महो दधौ विषं कालानलप्रख्यं कालकूटमिति श्रुतं येन प्रोद्भूतमात्रेण देवताः तस्य विष्णुरहं वापि सर्वे वा सुरपुङ्गवाः न शक्नुवन्ति वै सोढुं इत्युक्त्वा पद्म गर्भाभः पद्मयो निरयो निजः ओङ्कारं समनुस्मृत्यभ्यायञ्जयो दिः समन्तदः समारब्धो ब्रह्मा वेदविदाम्वरः नमस्तुभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषे नमः पिनागहस्ताय वज्रहस्ताय वै नमः नमस्त्रैलोक्यनादाय हूदानां पदये नमः नमः सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे ब्रह्मणे चैवरुद्राय विष्णवे चैवते नमः सांख्याय चैव हूदग्रामाय वै नमः मन्मदाङ्गविनाशाय कालपृष्ठाय वै नमः सुरे तसे धरुद्राय देवदेवाय रम्भसे कपर्दिने करालाय शङ्कराय हराय च कपालिने विरूपाय शिवाय वरदाय च त्रिपुरघ्नमख्नाय मातॄणां पदये नमः वृद्धाय चैव शुद्धाय मुक्तायैव बलाय च चन्द्राय वरुणाय अग्रा चोग्रा विप्रायानेकचुषे रजसे नमस्ते व्यक्तो नए निय चय न्याय वै न्यक् च व्यक््रय व्यक्त व्यक््रय वै नम चिन्द्याय चैव चिन्द्याय चिन्द्या चिन्द्याय वै नमः जगदामार्तिनाशाय प्रियनारायणाय च उमाप्रियाय शर्वाय नन्दिवक्त्राङ्गिताय च पक्षमासाधमासाय ऋदुसंवत्सराय च बहुरूपाय मुण्डाय दण्डिने च वरूधिने नमः कपालहस्ताय दिग्वासाय शिखण्डिने धन्विने रधिने चैव यमिने ब्रह्मचारिणे हृग्यजुस्सामवेदाय पुरुषायेश्वराय च इत्येवमादिचरितैः स्तोत्रैः स्तुत्यनमिस्तुते एवं स्तुत्वा ततो ब्रह्मा प्रणिपत्य वरानने ज्ञात्वा तुभक्तिं मम देवतानां गङ्गाजलास्पालितमुक्तकेशः सूक्ष्मोऽसि योगातिशयादचिन्त्यो न हि प्रभो व्यक्तिमुपैषिरुद्रः एवं भगवदा पूर्वं ब्रह्मणा लोककर्तृणा स्तुतोऽहं विविधैस्तोत्रैर्वेदवेदाङ्गसम्भवैः तदोहं मुख्यया वाचा पितामखमधाब्रवं भूदभव्यभवन्नाथ लोकनाथ जगत्पदे किं कार्यं ते मया ब्रह्मन् कर्तव्यं वदसुव्रद सुव्रद श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाजाम्बुजेक्षणः भूतभव्यभवन्नाथश्रूयदाङ्कारणेश्वरसुरासुरायर्मध्यमाने पयोधौ पङ्कजेक्षणा भगवन्मेघसङ्काश्यं नीलजीमोदसन्निभं प्रादुर्भूदं विषं घोरं संवर्ताग्निसमप्रभम् तं च वयं सर्वे भीता सम्भ्रान्तचेतसः तत्पिबस्वमहादेव लोकानां हितकाम्यया भवाञ्चक्तश्च भोक्ता वै भवान् देव वरःप्रभो त्वधृतेन्यो महादेव वेगं सोढुन्न विद्यते एवं तस्य वच श्रुत्वा ब्रह्मणः परमेष्ठिनः बाढमित्येव तद्वाक्यं प्रदिगृह्यवरानने ततोऽहं पातुमारब्धो विषमन्तकसन्निभं पिबदो मे महाघोरं विषं सुरभयप्रदं कण्ठः समभवत्पूर्णं कृष्णो वै वरवर्णिनि तन्दृष्ट्वोत्पलपत्रापं कण्ठशक्तमिवो रगं तक्षकं नागराजानं लेलिहानमिवोद्धितं अधोवाचमहातेजाब्रह्मा लोकपितामहः शोभस्य त्वं महादेव कण्ठेनानेन ततस्तस्य वचः श्रुत्वा मया गिरिवरात्मजे कण्ठे धृतं विषंखोरं नीलकण्ठस्ततोऽस्म्यहं पश्यतां सुरसङ्घानां दैत्यानां च वरानने यक्षगन्धर्वभूतानां पिशाचोरगरक्षसा तत्कालकूडं विषमुग्रवेगं कण्ठे धृतं निवेश्यमानं सुरदैत्यसङ्घो दृष्ट्वा परं विस्मयमा तदो तदोमुरगणा सर्वे सदैत्यो रगराक्षसाः ऊजप्राञ्जलयो भूत्वा मत्तमादङ्गगामिनि अहो बलं पराक्रमस्ते त्वहो वपुर्योगबलं त्वेष अहो प्रभुत्वं तव देवदेव महाद्भुतं मन्मथदेहनाशन त्वमेव विष्णुश्चतुरानस्त्वम् त्वमेव मृत्योर्वरदस्त्वमेव त्वमेव सूर्योरजनीकरश्च व्यक्तिस्त्वमेवस्य चराचरस्य त्वमेव वह्निपवनस्त्वमेव त्वमेव भूमिस्सलिलं त्वमेव त्वमेव सर्वस्य इत्येवमुक्त्वा वचनं सुरेन्द्रा प्रगृह्य सोमं प्रणिपत्यमूर्ध्रा गदाविमानैरनिलोपवे गैर्मघं मेरुमुपेत्य सर्वे इत्येतत् परमं गुह्यं पुण्यात् पुण्यतमं महदर् नीलकण्ठयुधि प्रोक्तम् त्रिषु लोकेषु विश्रुतं स्वयं भुवा स्वयं प्रोक्ता कदा पापप्रणाशिनी यस्तु धारयते नित्यं ब्रह्मोद्गीतामिमां शुभां तस्याकं संप्रवक्ष्यामि फलं सुविपुलं महद विषं तस्य वरारोहे स्थावरं जङ्गमं तथा गात्रं प्राप्य दुशुश्रोणिक्षप्रं तत्प्रतिहन्यते शमायत्य शुभङ्घोरं दुःस्वप्नं चापकर्षति स्त्रीषु वल्लभदां यादि सभायां पार्थिवस्य च विवादे जयमाप्नोति युद्धे विजयमेव च गच्छेमध्वानं गृहेभ्यो नित्यसम्पदा शरीरस्येहवक्ष्यामि गतिं तस्य वरानने हरिश्मश्रुर्निलखण्डशशाङ्काकितमूर्धजः त्र्यक्षस्त्रिशूलपाणिश्च धृक, तुल्य तुल्य वृशचान पिनाकृक नंदील्यबल्रीमानंद तोल्यपराक्रम विचरखिला सप्तलोकान्म्ञया नदे मामतुल्य बलोभूत्वा, तुय्यबलो भूदसं भूतसप्लवाद मम भक्तया वरारोहे ये च शृण्वन्ति मानवाः तेषां गतिं प्रवक्ष्यामि त्विह ब्राह्मणो वेदमाप्नो दीक्षत्रियो विन्दते वैश्यस्तुलभदे लाभं शूद्रसुखमवाप्नुयाद व्याधितो मुच्यते रोगाद्बद्धोमुच्ये दबन्धनाद् गुर्विणी लभते पुत्रं कन्या विदधि सत्पथिं नष्टञ्च लभते द्रव्यमिह लोके परत्र च गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलं तत्फलं लभते मर्त्यश्रुत्वा दिव्यामि मां कथाम् पादं वाधार्थपादं वा श्लोकं श्लोकार्धमेव वा यस्तु धारयते नित्यं रुद्रलोकं स गच्छति अथवा सर्वमेवेदं देवब्राह्मणसन्निधौ यः मानवो नित्यं मद्गतेनान्तरात्मना श्रद्धधानसदा भक्तो रुद्रलोकं स गच्छति पठे च देवि भक्त्या च पाठयेच्च नरः सदा अतः परतरं स्तोत्रं न भूतं न भविष्यति नापि यक्षापिशाचा वा न भूदा न विनायकाः कुर्युर्विघ्नं गृहे तस्य यत्रायं तिष्ठदिस्तवः मयानुतुष्ठेन तवाम्बुजेक्षणेस्तवस्य माहात्म्यमकौखनाशनम् निवेदितं पुण्यफलादियुक्तं स्वयं चकीतं चतुरानेन कदामिमां पुण्यफलादियुक्तां निवेद्य देव्यै शशिबद्धमूर्धजः वृषस्य पृष्ठेन सहोमया प्रभुजगामकैलासगुहां गुहप्रियः श्रुतं मया पापकरं तदन्तिके निवेदितं ते धमया प्रजापदेः सर्वं त्वकिलं सलक्षणं प्रयाति चादित्यपदं द्विजोत्तमः यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुशृङ्खपादे नीलकण्ठनामोत्पत्तिकथनं नाम पञ्चविंशतितमोऽध्यायः ओ